सूचते चैव कारुण्याच्छृणुये वै द्विजा याया नाम वयं लोकात् पुण्यादिह भ्रष्टाः सन्तानप्रक्षयान्मुने प्रणश्च नस्तपस्तीव्रं अस्तित्वे कोज्य नस्तन्तुः सोऽपि नास्ति यथा समास्थितः जरत्कारुरिति ख्यातो नियतात्मा महात्मा च सुव्रतस्सु महातपाः पसो लोभात् कृच्छ्रमापादिता वयम् न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्य नाधवत् स वक्तव्यस्त्वया दृष्टो ह्यस्माकम् नाधवत्तया साधुदारान् कुरुष्वेति प्रजामुत्पादयेति च कुलतन्तुर्हीनः शिष्टस्त्वमेवैकस्तपोधन यस्त्वम् पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् एषोऽस्माकम् कुलस्तम्ब आस्ते स्वकुलवर्धनः यानि पश्यसि वै ब्रह्मन्मूलानि हास्यवीरुदः एतेनस्तन्तवस्ताता कालेन परिभक्षिताः यत्त्वे तत्पश्य सि ब्रह्मन्मूलमस्यार्धभक्षितम् यत्र लम्बामहेगर्ते सोऽप्येकस्तप आस्थितः यामखुम्पस्य सिब्रह्मन् काल महाबलः